नृसिंहाष्टकं मीटर् अनुष्टु सुन्दरजामातृमुनेः प्रपद्ये चरणाम्बुजं संसारार्णव संमग्नजन्तुसन्तारपोतकम् मीटर इन्दुवदना श्रीमदकलङ्गपरिपूर्णशचिकोडिश्रीधर मनोहर सडापटलकान्त पालय कृपालय भवां बुधिनिमग्नं दैत्यवरकाल नरसिंह नरसिंह पादकमलावनद पादगिजनानाम् पदत्रिवरकेदो पादकदवानलपदत्रिवरकेदो भावनपरायणभवार्तिहरया मां पाहि कृपयैव नरसिंह नरसिंह तुङ्कनखपङ्क्तिदलितासुरवरासृक्पङ्कनवकुङ्कुमविपङ्किलमहोरः पण्डितनिधानकमलालय नमस्ते पङ्कजनिषण्ण नरसिंह नरसिंह मौलिषु विभूषणमिवामरवराणां योगिहृदयेषु च शिरः सुनिगमानां राजदरविन्दरुचिरं पदयुगं देहि मम मूर्ध्नि नरसिंह नरसिंह वारिजविलोचनमदन्तिमदशायां क्लेशविवशीकृतसमस्तकरणायां ये हि रमया सहशरण्यविहगानां नाथमधिरुह्य नरसिंह नरसिंह हाण्डगिरीडवरहारवनमाला तालरसनामकरकुण्डलमणीन्द्रैः भूषिदमशेषनिलयं तव वपुर्मे चेदसि चकास्तु नरसिंह नरसिंह इन्दुरविपावकविलोचनरमायामन्दिरमहाभुजलसद्वरथाङ्ग सुन्दरचिराय रमदां त्वयि मनो मे नन्दितसुरेश नरसिंह नरसिंह माधव मुकुन्द मधुसूदनमुरारे वामन नृसिंह शरणं भवनतानां कामदकृणिन्निखिलकारणनयेयं कालममरेश नरसिंह नरसिंह अष्टगमिदं सकलपातकभयघ्नं का कामदमशेषदुरितामयरिपुघ्नं यः पठति सन्ततमशेषनिलयं ते गच्छति पदं स नरसिंह नरसिंह इदिश्री श्रीनृसिंहाष्टकं सम्पूर्णं सर्वत्र गोविन्दनामसङ्कीर्तनं गोविन्द गोविन्द